Wow इतरस्ते अन्यतः गङ्गारक्षागम् त्रिविशास्तेन्यदस्ते दान् देवानामुदयदम् पङ्क्मगम् पन्तद्रक्षागम् ध्यात्रेभिरभ्रन्तान् सुब्धान् मृदानभिव्योक्षस्ते देवा अपि दर्यो वे नोऽयं म्रियते रक्षागम् द्विवा इमां भ्रन्ते दृते रक्षाकस्य वा मनुदयन् ञ्जया मदन्नस्थिभो देवा सुरानराञ्जयित्वा रक्षाकस्य पादं ददानि रक्षाकस्य नितमकर्ते निगमन्तं देवान् पर्यविशन्ते देवाग्नाथन्त प्रवदे पुरोनादमष्टाकपादन् निरमवन्नग्नय विबाधवदे प्रतीकपदे यदग्नय प्रवदे निरवमनियान्येव पुरस्ता न्तानितेन प्राणुदन्तयदग्नय विबाधमतेयान्येवाभितो रक्षाकस्या सन्तानि तेन व्यबाधन्तयदग्नय प्रतीगमतेयान्येवमस्याद्रक्षाकस्या ते सन्तानि तेनापारुदन्त देवाभवन्मरासुरायोभ्यादुर्यमान् स्यात् स्पर्धमानगेतयेत्यायजेताये प्रवदे पुरोदासमष्टागमानन् निर्व ग्नय प्रतीगवते यदज्ञये प्रवदे निर्भवति यगेवास्माच्छ यान् भ्रातुं यत्सन्ते न प्रनुदते यदज्ञये विभाधवते यगेवैनेन सङ्कन्तेन विभाषते रक्षये प्रतीगवते यगेवास्मात् पापी यान्तनापनुदते प्रश्रययागम् सम्भ्रातुर् युसतेऽपि सङ्क्रामदिनैनं पापीया य एवम वित्वा मेघयज्ञं ज्ञागितम् देवासुरा संयत्तः सन्ते देवा अब्रुवलयो मावेर्यावत्तमस्तमनुसमारभामहायि त इन्द्रमब्रुभं वै न वेद्यावत्तमो जित्त्वा मनु समारभामहायियोब्रवेत् तिस्रोमहिमास्तमवेर्यावदे प्रेणे तासा सुरा न विभविष्य च दिता वै ब्रूहेत्यब्रुवन् नियमगम् होमिरविन्द्रिया वचेत्य ीस्त्रायागं होमुज पुरोडासमेकादयगपालन् निरवपन्दिन्द्रायवे मृथायन्द्रायै द्रियावदे जगलीन्द्रायागं होमुज इन्द्र आत्मन समारम्भय तपो एताम् वावदेवा विजयमुत्तमाम सुधैर्गेन्द्रयो भ्रादुर्यवान्पर्धमाणयतये प्याय जेतेन्द्रायागम् जय पुराणाय मे गादृजपालं निर्वपेन्द्राय मे मृधारेन्द्रायैन्द्रियामजेगम् हावायतो होम जय सर्वप्रत्यगृं हत एव तेन उच्यते मृधाव युष्मात्समाने स्वण्यश्रेयायताभ्या दुर्व्या इदिन्द्राय वै वृथाय पृथगेव तेनावहदेन्द्रायेन्द्रियापदैन्द्रियमेव देनात्मन् धत्ते त्र्यत्रियुम् सर्कपालम् पुराणाश निर्वपदि त्रयत्रियम् षद्वे देवतास्तादेव एतावानेताभिः जन्नामे तर्य एवम् विद्वानेतये याय स उत्तमामेव विहि सम्भातुर्येण विजयते संयत्ता सुन्देदाङ्गायत्र गोबलमिन्द्रियम् येर्यम् प्रजाम् सङ्ग्रह्यादायावक्रम् यातिष्ठत्य मन्यन्तय दलानुवामियत्सित इदम् भविष्यन्ते जिताङ्ग्यश्वयन्त विश्वकर्मन्निति देवादाभेत्य सुरास्तान्यश्च नावत्तरदेवादेतश्चिरवश्यन्नो च विदो जलपदेभ्य जाधिदेवानान्धामनामाधिविश्वमधिविश्वायस्सर्वमधि सर्वायुध विभो देवासुनामोजबलमिन्द्रियं वेर्यं प्रजां पशो न वृञ्जयद्गा यत्र वक्रम्या तिष्ठत्तस्मा जयताङ्गा यत्रि जेष्टिमाहुस्संवत्सरो वेगा यत्रिसंवत्सरो वेतद वक्रम्यातिष्ठद्गजयतगाना नामो जबलमिन्द्रियं वेर्यं प्रजा पशोनभिरञ्जलतस्मादेताकम् सम्भर्गयितेऽत्यमाहुर्य भ्रातुर्यमाञ्चा तस्पर्धमानमेतयेत्यागज्रज सम्भर्गाय पुरोडालमट्टाकमानन्यतमासन्नषाभिमृजेतोदगेव बलमिन्द्रियम् वीर्यम् प्रयाम् पशोन् भ्रातुर्यस्य वङ्के भवत्यात्मनापरास्य भ्रातुर्य भवति प्रजापय प्रजा असृजता अस्मा स्वराजेरायन्ता यत्रावसन्त घर्मदक्षा बृहस्पतिष्ठान् भवेत् धातुं बृहस्पतिरणया प्रतिष्ठान्यधत्वा प्रजा उपावत्स्यन्ते गृहं प्राजष्ठत्र भवेत् प्रजापतिं प्रजा उपावर्तन्तयः प्रजागामस्यात् तस्मागेतं प्राजावत्यङ्गाः मृदञ्चलन्य प्रजापतिमेव तेन भाग येनोपधावति स एवास्मै प्रजाम् प्रजनयति प्रजापतिः पशो न सृजनये सृष्टा परान् चायन्ते यत्रावसन्ततो गर्वन् पोषादान् बभेदातुं सवेत् पोषाणया प्रदिष्टा सत्ता पशवभावम् प्रतिष्ठेति सो मा प्रतिष्ठानेत्यब्रवेत्तौ प्रातिष्ठत्ततो मे प्रजापतिं पशव उपावर्तन्तयः पशुरामस्यात्तस्मावेदगम् सोमापौष्टङ्कान्मुदञ्च निर्ममापूषणामेव स्थजयेनोपधावधितामेवास्मै पशुन् प्रजनय सोमो वेदयतोधा पूषा पशूनां प्रजनयिता सोमयैवास्मै गहीन्द्रो पुष्ट्यादिषस्वनः इन्द्रो धत्ता गृहेषु नः रतायः सहस्रिगस्वनो गृहेषु धारणते आपूषाघेत्वासो धाता च दातुनो रयिमीशानो जगदस्पतिः नः पूर्णेन पावनत् पृष्टायो विषभो विषासनो गृहेषु धारणते सहस्रेणायुतेन च येन देवामृतम् दीर्घग्निश्रवो विवेरयन्त नायस्पोषत्वमस्मभ्यङ्गवान् कुरुमिम् जीवसायुमस्व अग्निगृहपदिश्वपरिस्रविलासुमेधा स्वाहा अग्ने गृहपदे यत्ते श्रुत्या भागस्ते न सहवोद आक्रममाणा यथेः श्रेष्ठ्याः प्रथो मायोजम् चित्रयायजेत पशुराम इयं वै चित्राय द्वास्यां विश्वं भोतमथे प्रजाय चे चेयं चित्राय एवं वित्वाकश्चित्रया पशुरामो विजते प्रजया वशुधर्मैर्जायते प्रैवाज्ञेयेन पापयतिलेत सौम्येन दधातगेव हितं तुष्टा रूपाणिकरादितौ भरतगेतद्वै देव्यं मिशनं दैर्यमेवास्मै मिशनं मध्यतो पुष्ट्यैवे प्रजननायति मेवाल्ये भवति वा जेवाले पुष्ट्यक्षणुमेवाष्टिमेव वाचमुपे यैलोत्तमा भवति तेनैव तन्मिधुनगम् सप्तैतानि हवेगं च भवन्ति सप्तग्राम्याः पशवः सप्तार्याः सप्त चन्दागस्य उभयस्याावुरे देवाः पुष्ट्यपदयस्तवे प्रजया प्रतिक्षित्यै मारुतमधितामो जोपान्शेन मायिनम् मनोजम सम्भृषणुङ्क्यम् उगमधष्टमे जगदश्विना परिधत्तग्रस्वस्ति पुरो वातो वर्षन् जिन्वरावत्स्वाहातावद्वर्षन् नुग्ररावत्स्वाहानयन् वर्षन् धीमरावत्स्वाहास्फोर्जम् विद्युद्वर्षन् तेशरावत्स्वाहात्रम् वर्षन् भोक्तिरावत्स्वाहायमवृषादिररावत्स्वाहावर्षन् निरागावत्स्वाहास्फोर्जम् विद्युद्वर्षन् भूतरावत्स्वाहान्दावाधा सन्ध्यो ुष्मदे स्तमस्पदे रुन्दते सुखेनाः मित्रभृतः क्षत्रभृतस्तुराष्ट्रा यमावता कृष्ण अश्वस्य सन्तानमधिवृक्षे त्वोपनश्यामि देवावध्या अग्ने द्वामदौर्या देवाः शर्मण्या मित्रावरुणार्यमन् देवाः सती दयोपानपादाशु हेमन् मुद्रोदत्तोदधिवक्पर्जन्यादन्दरिक्षात् पृथिव्यात्ततो नृत्या वदा वित्तमः पर्जन्येनोदवाहेनते आयन्दरः सुदानबोददातु च दिवः कोशमदित्यमुः पर्जन्यास्त्रजन्तिरोदधे अनुधन्वनायन्ति वृष्टयः उदीर यथा मरुदस्तमुद्रणो योजम् वृष्टिम् वरिषयथा पुरेषिणः नमोदस्था उपदस्सन्ति धेनवः शुभम् याता मनुरथा अवृत्सदा वृष्टिम् दिव आभ्यस्तमुद्रम् प्रणा अब्द्यादिप्रथमजामद्रियम् उन्नम्भयपृथिवेम् भिन्धेजम् दिव्यम् नभः मुद्रा दिव्यस्तन देहीशानामिषजाम् ये देवादिविभागायक्षभागाय कृषिविभागाः त इम यज्ञमपन्धुत इदम् क्षेत्रमापि सन्तुत इदम् क्षेत्रमविशन्तु मारुतमधिमलनामो जगित कृष्णं वाधकृष्णदोषम् परिधत्त एतद्वे विष्टे लोपगुम्भलोप एव भूत्वा भर्जन्यं वर्षयति नमयत मरुदस्येन वायुधमिति पश्चाद्वातम् पृथिमेवति पुरो वातमेव जनयति वरुणस्यावरुद्धे वातधामानि जति वायवृदेवत्याये च वायुमेव स्वेन भागधेयेनोपधावस्मै पर्जन्यं वर्षयत्यक्तौ शरस्रोमै शरस्रोभान्तरदिशा दिग्भगेव यदि कृष्णादिने वा करन्तर्वैदिनैश्चे यदीनामद्यमानानागुंसेरिकानि परापतन्ते खर्गोरा अभवन्ते जागुम् न समोर्ध्वापदत्तानि करीराण्यभवन् सौम्यानि मयि करीराणि सौम्या खलु वा आहुज्युवृष्टिञ्चामयत्करे भवन्ति सौम्ये मा भक्त्या वृष्टिमवरन्धे मधुदासंयोम्बागे च वोषधे नागुम्भो यन्मद्वध्यगेवोषधे द्रो परिषत्यथ्यगेवोषधे द्रो वृष्ट्यञ्जनयदिमान्दावासाविसंयोगिनामधे ये नेव नाच्यैत्यसो यथा ब्रूया तथा मेहे अश्वस्य सन्दानमनिकृष्णे कोपनयक्यामेत्याह वृषा वा अश्वा वृषा वर्जन्यः कृष्णय वष नवे भोक्तावर्षज लोपेनैवेन कुम् ज्ञा देवान्या देवा बध्नादिदेवताभिदेवान् वहम् वृष्टिमिच्छिवर्ष तावत् देवः द्रव्यङ्ग्य दिनवर्ष स्वभूते हवन्यो रात्रे मे मित्रावरुणा वहोरात्राभ्याम् खलु वे पर्जन्या वर्ष विनष्टम् पाहि दि वा वर्षति मित्रावरुणागधे येनापधा च्छाकपालं निर्म वै मारुदकं सप्तकपालकं सौर्यमेकपालमग् मृत्यमुदे मरुदसृष्टान् नयन्ति यदा खलु वार्यावर्तते धामच्छति खलु वे भोक्त्वा वर्षत्रेता वे देव स्ते पजन्यम वर्षये वर्षा भक्ति दिवाभ्यस्त मुद्रमृे हेमाशाप आभिवामोक्षे त्यबा प्रसमजाफलमुद्रग मि ये भय पथि वर्धा ेषा वा बोधहीनाम् नष्ट एव वयष्टिमाञ्चावयधिवादिविभागादिति नष्टा जनमवधूनो हिम एवास्मै लोका प्रीता अभेष्टा भवन्ति सर्वाणि छन्दाकस्येतस्याविष्ट्या मनोच्चानेत्याहस्तभोवा एतद्धेर्यम् यत् ककुदुष्णिहा जगत्ते यदुष्णिः ककुभावन्वाहतेनैव सर्वाणि छन्दाकस्य वरुन्धे गायत्रीवा एताविदृष्णिहायानि अर्पहा यद्धक्षराणि यदुष्पादयेव ते पदभोगसा पुरोणाशे पुर ेवमेव तद्य दृत्यध्यक्षदानयज्ञगत्या परिदध्यादन्तं यज्ञं गमय दृष्टभा परिदधादीन्द्रियं वै वीर्यं दृष्टगेन्द्रिय एव वीर्य यज्ञं प्रतिष्ठापय दिनान्तं गमयत्यज्ञेत्रे देवादिनात्रे रथस्थे दृत्रभक्त्या परिदधादि सर्वभक्ताय सर्वो वाे धादवीयं कामाय कामाय प्रयुज्यते सर्वेभ्यो हिकामि यज्ञप्रयुज्यते त्रे धादवीयेन यजेताभितरम् एव यजेत सहस्रेणोन्तम् वागेन पशूनाम् गच्छति यत् सहस्रेण यजते प्रदापने खलु वे पशो न सुजरागस्त्रेधा नवीयेनैवासुजनय एवम् विद्वागस्प्रैधा नवीयेन पशुकामो यजते जापयपशो न सृजद तस्मा देवैनान् सृजदवैनमुत्तरगं सहस्रन्नमति देवताभ्यो वा यावृश्च दे यो यक्षेत्युक्त्वा न यजते त्रेधादवीयेन यजेत सर्वो वायज्ञो यत्रे धादवीयगं सर्वेणैव यज्ञेन यजतेन देवताभ्यावृष्टतये द्वादशकपालपुरोणादो भव नियत्रयश्चतुष्कपाला तृष्णवधत्ता यत्रयः पुरोडाशा भवन्ति त्रे हिमे लोकायेषाम् लोकानामाप्ता उत्तरवृत्तरो जायान् भवत्येव इमहि मे लोकायमयोमध्यगेतद्वा अन्तरिक्षस्य लोकम् समर्थ्यै सर्वेणामभिगमयन्नवध्यक्षम्भट्कारणुभिरण्यन्तदाति चेतगेवा वरुन्धे धात्यन्तदाति वशुदेवावृन्धे धेनन्दधातिषगेवावरुन्धेधा नो वा एष वर्णो स्पष्टा हत पुत्रोगेन्द्रमाहरन्मिन्द्र उपहव मे शततन्ना पुत्रमेव भक्तस्य प्रावर्तय स्वाहेन्द्रुवर्धस्य षु मात्रमिषु मात्रम् विष्वङ्गवर्धत इमान् लोकान वृणाच इमान् लोकान वृणा च वृत्तश्च वृत्तद्वन्दम् पादिन्द्राभेदमि त्वष्टा तस्मै त्वष्टानुग्रमधिम् दत्त भो वै समग्रहाभे तमुद्यम् दन्नाथक्ष्मो वेतर्हि विश्वरम्या ृथिव्याम्पृथिव्याम् तृतीय मासेन्द्रे प्रहारस्ति वा इदम् मयिधीर्यम् दत्ते प्रदास्यामे प्रायच्छत्र प्रत्यग्रन्थादधा मे निरव्यक्षमे विप्राय ष्टप्रत्यगृह्णादस्मात् विन्दगेन्द्रियम् दधात् क्षेत्रीय माधेत्यगृह्णाद् प्रागच्छत्तद्दष्टप्रत्यगृह्णादस्मान्विन्द्रगेन्द्रियण् यद्धे यमाहेत्तेनेन्द्रो वज्रमुदयच्छद्विष्टमस्थित स्वेन्मामे येनाहमिदमस्मिद्यामे इत्यब्रभे सन्धा वहे त्वामेव प्रविशाीति जन्माविशेक्तिमा भुञ्जामित्यब्रभे त्वामेवेन् भोगाय त्वाम् प्रविशेयमित्यब्रभे संवृत्तः प्राविशदुतम् वैद्रः क्षुत्खदु वै मनुष्यत्यभ्रातुम् योग एवं वैदहन् दिक्षुसम्भ्रातुम् व्यङ्करस्मै प्रायच्छत्तत्प्रत्यगृह्णार्माधाविधि तद्व्यष्ट वेधिप्रायच्छत्त त्यगन्हादस्मात् इन्द्रेन्द्रिगन्द्रिगत्य प्रागच्छत्र प्रत्यगन्धात् तत्कृत्रप्रागच्छत्रस्मादेन्द्रावैष्णवगम् हविर्भवदिगत्वादङ्किञ्च तदस्मै तत्प्रागच्छतुस्तावानिगजोऽगम् त्रिसहस्रम् वा अस्मैतत्प्रागच्छत्रस्मात् सहस्रदक्षिणम् वेदावेराजन्या जायमानात विभगत्तमन्तरे सन्तन्ताम् नापो भान् सभागेतोप ध्वजायते यद्राजन्यो यद्वारेटो ध्वजायत वृताङ्घस्तरेत्यङ्कामयतराजन्यमनभो ध्वजायत वृत्रान् जग्ग्यस्तरे तस्मायतमयेन्द्रामालहस्पत्यन्तरण्वेदरेन्द्रो वेदाजन्य ्रह्मबर्ब्रह्मदेवैनन्दाम् नोपोम्फलान् मुञ्चतिणाक्षादेवैनन्दाम् नोपोम्फलान् मुञ्चति नमो नमो भवति जायमानोन्धातुर्षधानेत्यग्रे भागम् देवेभ्यो विदधाक्षायन्त्रचन्द्रमास्तिरीर्घमायुः त्यांसुमाप्यालयन्क्षिदयः पिबन्ति भुवनस्य गोपाः राज्याम् विहिराज्योतो देत्याम् वृत्रहम् वृत्रहासि यत्रयन्ते स्तोत्या दक्षिणतोपवे अधिहव्यः इन्द्राजया निरपराजया ता अधिराजो राजसुराजयादि स्वाभिभूयाभिक्ते उपसत्यो नभस्यो यथा सत् अस्य देव प्रति दिवः पृथिव्याः पर्यन्तरिक्षात् महाविश्वगोवन्तस्पतिरमत्रोपव केरणाय अभित्वाशूरणो नमो दुग्धायव धेनवः ईशानमस्त्य जगदस्तु भद्रशमीशानमिन्द्रसच्छुषः त्वामिद्भ्य हवामहे दातावाजस्य कारवः त्वाम् वृद्रेष्मिन्द्रसत्पदिन्द्रत्वाम् काष्ठा सर्वतः यद्याप इन्द्रदेशलकुंशलम् भोमे हृदस्योः नत्वा वज्रेण सह ोममिन्द्रमन्तग्रायन्ते दुषावहर्यवाद्रिः स्वोकबाहुभ्याकंसोनार्वातेनस्तधमाजमिन्द्रे सन्तु धिविवाजाः धर्मदेव ज्योतिषो नित्यम् जातवेतम् नत्रत्वा हरिसोरेवहन्ति देवसूर्या सोतिष्के संविलक्षणा ऋणम् देवानामुदगादली कञ्चक्षुर्मित्रस्य वरुणस्याग्नेः प्राप् अन्तरिक्षकुण्षश्च विश्वे देवादितावृथ ऋतुभिरहवनः स्मृतः द्विगन्तायुज्यम्पयः विश्वे देवाश्रुमतेमगुभवन् मेघे अन्तरिक्षेयमुपद्यष्ठा भागेरत्रास्मिन्वर्हिमादयद्वाम् ओ